मार्कण्डेयपुराणम् अध्यायं 114 एण्ड् फ़ोर्टीन् खनित्रचरित्रवर्णनं मार्कण्डेय उवाच तस्य तस्यां सुनन्दायां पुत्राद्वादशजज्ञिरे प्रांशुः प्रवीरशूरश्च सुचक्रो विक्रमक्रमः बलीबलाकश्चण्डश्च प्रचण्डश्च सुविक्रमः सुनयश्च महाभागाः सर्वे सङ्ग्रामजितमाः तेषां ज्येष्ठो महावीर्यः इतरे भृत्यवक्तस्य बभूवुर्वशवर्तिनः तस्य यज्ञ द्विजत्यक्तैरनेकैर्दिव्यराशिभिः न्यूनवर्णविसृष्टैश्च सत्यनामा वसुन्धरा सम्यक् पालयतस्तस्य योऽधनच ह्यक्कोशे तेन निष्पादितास्तुये, ये क्रतवशतं सहस्रास्ते तेषां संख्या न विद्यते अयुताद्येन कोटिभिर्न च पद्मादिभिर्मुने प्रजातिस्तस्य श्रु ोभूद्यस्य यज्ञे शतक्रदुः अवाप्यतृप्तिमतुलां यज्ञभागैः सुरैः सह दानवानां सुवीर्याणां जघाननवदीर्नव बलं च बलिनां श्रेष्ठो जम्भं चासुरसत्तमम् अन्यांश्च सुबह वीर्यानाजघानामरद्विषः प्रजातेस्तनयाः पञ्चखनित्रप्रमुखा मुने तेषां खनित्रो राजाभूत्प्रख्यातो निजविक्रमैः सशान्तः सत्यवाक्षूरः सर्वप्राणिहिते रतः स्वधर्माभिरधो नित्यं वृद्धसेवी बहुश्रुतः वाक्मी विनयसम्बन्धकृतास्त्रोऽप्यविकथनः सर्वलोकप्रियो नित्यमुवाचैदहर्निशम् नन्दन्तु सर्वभूतानि स्निह्यन्तु विजनेष्वपि स्वस्त्यस्तु सर्वभूतेषु निरातङ्गानि सन्तु च माव्याधिरस्तु भूदानामाधयो न भवन्तु च मैत्रीमशेषभूतानि पुष्यन्तु सकले जने शिवस्ततिरस्तु परस्परम समृद्धिसर्वर्णा सिद्धिस्तु चकर्मा भो लोकाभूत शिवा वोस्त सदा मधात्मन यहा पुत्रे हिदमीक्षथा तथा समस्तभूतेषु वर्धत्वं हिदबुद्धयः ये दद्वो हिदमत्यन्तं को वा कस्यापराध्यते यत्करोत्यहिदं किञ्चित् कस्यचिन्मूठमानसः तं समभ्येदितन्यूनं कर्तृगामि फलं यदः इति मत्वा समस्ते शुभो लोकाहितबुद्धयः सन्धुमालौकिकं पापं लोकाः प्राप्स्य ध वै बुधाः यो मेद्य तस्य शिवमस्तु सदा भुवि यश्च मां द्वेष्टि लोकेऽस्मिन् सोऽपि भद्राणि पश्यतु एवं स्वरूपः पुत्रोऽभूद्घनित्रस्तस्य भूपते समस्तगुणसम्पन्नश्रीमानब्जदलेक्षणः तेन ते भ्रातरः पृथग्राज्येषु योजिताः स्वयं च पृथिवी मेधाम्बुभुजे सागराम्बरां प्राच्यां तेन क्रुधशौरिर्दक्षिणस्यामुदा वसुः दिशि प्रतीच्यां मुनय उत्तरस्यां महारथाः तेषां तस्य जूपस्य पृथग्गोत्राः पुरोहिताः बभूवुर्मुनयश्चैव मन्त्रिवंशक्रमागताः शौर्येरत्रिकुलोद्बोधसुहोत्रो नाम वै द्विजः बुधा वसो कुशावर्तो गौतमान्वयजोऽभवद काश्यभप्रमतिर्नाम सुनयस्य पुरोहितः महारथस्य वासिष्ठः पुरोधा भून्महीभृतः बुभुजुस्ते स्वराज्यानि चत्वारोऽपि नराधिपाः खनित्रश्चाधिपस्तेषामशेषवसुधाधिपः तेषुभ्रादृष्वशेषु खनित्र स महीपतिः प्रजासु समस्तासु पुत्रेष्विव सदा हितः विश्ववेदिना विविक्ते पृथिवीपाल किञ्चिद्वक्तव्यमस्ति नः यस्येयं कृष्णा यस्य भुभावशानुगाः सराजातस्य पुत्रश्च तत्पौत्राश्चान्वयस्ततः इतरे भ्रातरस्तस्य प्राक्त्वल्पविषयाधिपाः तत्पुत्राश्चाल्पकास्तस्मात्तत्पौत्राश्चाल्पकाल्पकाः कालेन ह्रास्समासाद्यपुरुषात्पुरुषान्तरम् कृष्योपजीविनो भूपभवन्तीति तदन्वयाः नोद्धारं गुरुदे भ्राता भ्रातृस्नेहबलार्पणः स्नेहखक्पृथिवीपालपरयोर्भ्रातृपुत्रयोः तत्पुत्रयोः परतरा मदिर्भवति पार्थिव तत्पुत्र केन कार्येण प्रीतियुक्तो भविष्यति अथवा येन तेनैव सन्तोषं कुरुते नृपः क्रियते तत् किमर्थं तु भूपैर्मन्त्रिपरिग्रहः पुज्यदे सकलं राज्यं मया ते सता तत्किं मुधा धारयसे सन्तोषं कुरुदे यदि कार्यनिष्पादकं राज्यं करणं कर्तुरिष्यते कार्यं कर्ता राज्यल्धु कार्यम र्ता कौस्मा कज्यम पितृपैदा कुर फल प्रदाश्यापरलोक वम राजवाच ज्येष्ठो भ्रातामहीपालो वयं तस्यानुजायतः ततः स भुङ्क्ते पृथिवीं वयं चाल्पवसुन्धरां वयं तु भ्रातरः पञ्चपृथ्वी चैकामहामते अतो स्याः पृथगैश्वर्यं कथं कृत्स्नं भविष्यति विश्ववेद्युवाच एवमेतद्भवत्त्वत्र यद्येका वसुधा नृपा तां त्वमेवाभिपद्यस्व ज्येष्ठशास्तु यथा भवान् सर्वाधिपत्यस्सर्वेभ्यो भवत्त्वमखिलेश्वरः यदन्ते च यथाहं ते तेषामपि हि मन्त्रिणः राजोवाच ज्येष्ठो राजा यथा प्रीत्या भजते स्मान्सुदानिव मम त्वं जगदीगदम् विश्ववेद्युवाच राज्ये स्थितः पूजयेधा ज्येष्ठं भूपार्हणैर्धनैः राज्यं प्रार्थयतां नृणां मार्कण्डेय उवाच तथेदि च प्रतिज्ञादे भूभुजातेन सत्तमा विश्ववेदी तथो मन्त्री तद्भ्रातृ नन यद्वशं तेषां पुरोकितांश्चैव आत्मनः शान्तिकादिषु नियोजयामास त्रस्याभिचारके विभेद तस्य निभृतान् सामधानादिभिस्तथा चक्रेज परमोद्योगं निजदण्डप्रभावने आभिचारिकमत्युग्रमहन्यहनिकुर्वताम् पुरोधसां चतुर्णां च जज्ञे कृत्या चतुष्टयं विकरालं महावक्त्रमदिभीषणदर्शनं समुद्यदमहाशूलं प्रभोदमदिदारुणं ततस्तदागदं तत्र खनित्रो यत्र पार्थिवः निर चाप्य निपपात से तय पुण्यचन तत्च निपुरात्मसु विश्ववेदिनी। तदो कृत्ययादे विश्ववेदी तथा मंत्री सशौरे दुष्ट मद यी चरित्रे खनिचर चुर्दाधिकम्याय Oh